परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे त्रयोदशोऽध्यायः राजोवाच हरिश्चन्द्र कुतो राजा सचिवैन्दृपशासनात् शङ्कुर्तु कथं मुक्त तस्मा तस्मात् चाण्डालदेहतः मृतो वानमध्ये तु गङ्गातीरे परिप्तः गुरुणा वा कृपां कृत्वा शापा तस्मा शापात् तस्माद् विमोचितः एतद्वृत्तान्तमखिलं तस कथयस्व ममाग्रतः चरितं तस्य नृपतेः श्रोतृकामोऽस्मि सर्वथासोवाच भिषिक्तं सु सन्तुष्टमानतः कालापि क्रमणं तत्र सकारे चिन्तयन् शिवाम् एवं गच्छति काले तु तपस्ततः द्रष्टुं दारां सुधाग तदाघिको मुनिः आगत्य स्वजनं दृष्ट्वा सुस्थितम् बुदमाप्तवान् भार्याम् पप्रच्छ मेधावी स्थिताम् अग्रे सपर्यया दुर्भिक्षेतु कथं कार त्वया नेतस्तु लोचने अन्नं विना त्वमे बालः पालिता केन तद्वद अहं तपसि सन्नधो नागतः शृणुसुन्दरी किं कृतं तु त्वया कान्ति विना द्रव्येण शोभने मया चिन्ता कुता तत्र श्रुत्वा दुर्भिक्षमद्भुतम् नागतोऽहम् विचार्य एवम् किं करिष्यामि निर्धनः अहम् अप्यदिवामरो पीडितः क्षुधया वने प्रवेष्टयश्च वरभावेन कुत्रचिद्वचालये श्वपचम् निद्रितम् दृष्ट्वा क्षुधया पीडितो भृशम् महानसम् परिज्ञाय भक्ष्यार्थम् समुपस्थितः यदा भाण्डम् समुद्घाट्य पक्वम् श्वतनुजम् तनुजान्मिषम् गृह्णामि भक्ष्यनाथाय तदा दृष्टस्तुतेन वै पुष्ट कष्टम् कथं गृहे मे निशिसाधरम् ब्रूहिकारम् किमर्थं तम् उद्घाटयसि भाण्डकम् इत्युक्तः कपचने स्वपचेनाहम् क्षुधया पीडितो भृशम् तम्भवोचं सुखे शान्ते कामं गद्गदया गिरा ब्राह्मणोऽहं महाभाग तापतः क्षुधया चौरभावम् मनो प्राप्तु भक्ष्यम् पश्यामि भाण्डके चौरभावेन सम्प्राप्तोऽस्मि अतिथिस्ते महामते क्षुधेतोऽस्मि ददस्वा संवद्मि सुसंस्कृतम् विश्वामित्र उवाच श्वपचस्तूच श्रुत्वा माम् उवाच सुनिश्चितम् भक्ष्यम् मा कुरु वर्णागृह जानीहि स्वपचालयम् दुर्लभम् खलु मानुष्यं। तत्रापि च द्विजन्मत द्विजत्वे ब्राह्मणत्वं च दुर्लभम् वेसि किं नहि दुष्टाहारो न कर्तव्यः सर्वथा लोकमिच्छता अग्राह्य मनु कर्मणा सप्त चान्त्यजः त्याज्योऽहं कर्मणा विप्र स्वपचो नात्र संशयः निवारयामि भक्ष तं न लोभेनाञ्जस द्विजय वर्णशङ्कर दोषोऽयं माया तु तं द्विजोत्तमः सत्यं वदसि धर्मज्ञा मतिसे विशदान्त्यजय तथाप्यापि धर्मस्य सूक्ष्ममार्गम् ब्रवीम्यहम् देहस्य रक्षणम् कार्यम् सर्वथा यदि मानदे पापस्यान्ते पुनः कार्यम् प्रायश्चित्तम् विशुद्धये दुर्गते तु भवेत् पापात् अनापदि न चापदे मरणाक्षुरितश्च नरको ना संशय तस्मात् क्षुधापहरणं कर्तव्यं शुभमिच्छत तेन अहं देहं रक्षोप्यथाजय अवर्षणे च चौर्येण यत् पापं कथितम्बुधैः यो न वर्षति पर्जन्य भविष्यति वच मे का सतत गगनाध हता धारा भी का मृिहम घनम वीक्ष वर्ष तम विद्युता सह तदा तदृहम त्यक्त निसृत परया मुर कथय तम वहारोहे कालो नीत त्वया कथम् कान्तारे परमक्रूरः च क्रोत्राणि नाम्य इति तस्यैव च श्रुत्वा पतिमाह प्रियं वथा शृणु मया नीतः कालः परमदारुणः गते गते त्वयि मुनी श्रेष्ठ अन्नार्थम् पुत्रः सर्वे बभूवुश्चातिदुःखिताः दाए। क्षुतितान्दालकान् वीक्ष्य निवारार्थम् वने वने भ्राताहम् चिन्तयाविष्ट किञ्चित् प्राप्तम् फलम् तदा एवम् च गति निवारेणातिवाहितः तदभवे मया कान्त चिन्तितं मनसा पुनः न भिक्षा किल दुर्भिक्षे नैवारा नापि कानने न ना वृक्षेषु फलान्यासु न मूलानि धरातुले क्षुधया पीडिता बाला रुदन्ती भृशमातुरः किं करोमि क्व गच्छामि किं ब्रवीमि क्षुधादितान् एवं विचिन्त्य मनसा निश्चयस्तु मया कृते पुत्रम् एकम् ददाम्यद्य कस्मैच्चित्ने किले गृहीत्वा तस्य मौल्यम् तु तेन द्रव्येण बालकान् पालयेऽहं क्षुधातासु नान्योपायोस्तु पालने इति सञ्चिन्त्य मनसा कुतोऽयं गृहीतो मया विक्रयाथम महाभग कहंग मार्गे सत्यवृत मगे मीक्ष्य भृशतुर पप्रच सच राजदीति बारक तदा तमुवाचेम वचनम् मुनिसत्तम विक्रयार्थं नीयतेऽ बालकोऽद्य मया नृप कृत्वा वचनं राजा दयार्द्रे हृदयस्ततः बाम्बुवाच गृहं याहि गृहीत्वेन कुमारकम् भोजनार्थे कुमाराणाम् आमीशम् वितं तव प्रापयिष्याम्यहम् नित्यम् यावन्मो निसमागमः हनीहनि भोपालो वृक्षस्मिन्द्रूकराम् विन्यस्य याहि यत् हत्वासौ प्रत्यहम् दययान्वितः तेनैव बालकान्त पालिता वृजनाङ्गणवात् वसिष्ठे नाथशत्रोऽसौ भूपतेर्ममकारणात् कस्मिंश्चित् दिवसे मांसम् न प्राप्तं तेन कानने अत दोग्रीव शेषस्य तेना स्वपितो मुनिः महात्मना कुपितेन उदाधेतो चाण्डालस्य कुतो नृपहे तेनाहं दुःखिता दाता तस् दुखिकमारा मत नृपनंदन येनाप्युपन ये भवता नृपते कि तस् प्रकर्तव्या तपसा प्रबल नाच वच श्रोता कौशिको मुनीस तय माहे कामि नितपूर्वम् अरिन्दमय विश्वामित्र उवाच मोचयिष्यामि तं चापन् नृपं कमललोचने उपकार हे गतो येन कान्ता द्रक्षिता शिवै विद्या तपोबलेनाहं करिष्ये दुःखसञ्चयम् इत्याश्वास्य प्रियां तत्र कौशिकः परमाथवित् चिन्तयामासनृपतेः कथञ्च दुःखनाशनम् संविमृश्य तत्र जगाम यत्र पार्थिवः शङ्कुः प्रकणे दीनः संस्थितः स्वपचाकृतिः आगच्छन्तम् दृष्ट्वा विस्मितो सो नराधिप चण्डवन्निपपातो पादयोस्तरसा मुनेः गृहित्वा तम् करे भूपम् पतितम् कौशिकस्तराय उत्थाप्यो वाच भजनम् सान्त्वपूर्वम् द्वियोत्तमः मत्कृते तम् शप्तो से मुनिनायतः वाञ्छी तम् ब्रूहि किम् करवाण्यहम् राजोवाच मया सम्प्रार्थितः पूर्वम् वसिष्ठो मखहेतवे मां यजयश्रेष्ठ करोम्ये मकमुत्तमम् यथेष्टम् कुरु अनेनैव शरीरेण शक्रलोकम् सुखादयम् कोपम् कृत्वावेषोऽसौ मामाहेति सुदुर्मते मानुषेण हि देहेन स्वर्गवासः कुतस्थव पुनर्मयोक्तो भगवान् स्वर्गलुब्धेन चान्यम् पुरोहितम् कृत्वा यक्षेऽहम् यज्ञमुत्तमम् तदा तेनैव शक्तोऽहम् चाण्डालो एतत् कथितम् सर्वम् कारणम् चापसम्भवम् मम दुःखे विनाशाय समर्थोऽसि मुनीश्वर इत्युक्त्वा विर्रामासो राजा दुःखरुजार्जितः कौशिकोऽपि निराकर्तुम् चापम् तस्य विचिन्तयत इति श्रीमद्देवी भागवते महापुराणे षष्टादशसहस्राम् संहितायाम् सप्तमस्कन्धे श्रीशङ्कुशापोद्धाराय विश्वामित्रशान्वनवर्णनम् नाम त्रयोदशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु